श्रीमद्भागवत् महापुराणं चतुर्थे स्कन्धः सप्तमोऽध्यायः विषय उचुः अनन्वितं ते भगवन्विचेष्टितं यदात्मना चरसि कर्मणाद्यसे विभूतये यत् उपसेदुरेश्वरीं न मन्यते सिद्धावचुः अयं तत्कथामृष्ट पियुषनद्यां मनोवारणक्लेशदावाग्निदग्ध तिसार्थोऽवगाढो न सस्मारुदावं न निष्क्रामति ब्रह्मसम्पन्नवन्नः यजमान्युवाच स्वागतं ते प्रसीदेस स तुभ्यं नमः श्रीनिवासकान्तयात्राहिनः स्वामृतेऽधीशनाङ्गैर्मखशोभते शीर्षहीनकबन्धो यथा पूरुष लोकपाला ऊचुः दृष्ट किं नो दिग्भीरसं ग्रहैस्त्वं तत्यग्रदष्टा दृश्यते येन दृश्यं माया हे सा भवती या हि भूमन् यस्त्वं षष्ठ पञ्चभिर्भासि भूतै योगेश्वरा उचुः तेयान्तेऽन्योऽस्त्यम्बुतस्त्वयि प्रभो विश्वात्मं नीक्षेन्न पृसग आत्मनः अथापि भक्ते सन्तयोपधावताम् अनन्यवृद्यानुगृहानवश्य जगदुद्भवस्थितिलयेषु दैवतो बहुभिद्यमानां मानुगुणीयात्ममायया रचितात्मभेदमते स संशया वर्तित भ्रमगुणात्मने नमः ब्रह्मोवाच नमस्ते सिसत्त्वाय धर्मादीनां च सूतये निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च अग्निर्वाच यत्तेजसाहं सुसमेद्धतेजसा शब्दं महेश्वध्वरम् आद्यसिक्तम् तं यज्ञयं पञ्चविधं च पञ्चभिः श्रेष्ठं यजुर्भिः प्रणतोऽस्मि यज्ञम् देवाचुः पुराकल्पायै स्वकृतमुदरीकृत्य विकृतम् त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने पुमारशेषे सिद्धैर्षिदे स एवाद्या क्षणयोर्यः पथि चरसे भित्यानुवशीनः गन्धर्वा उचुः अंसां सास्तेदेव मरिच्यादयते ब्रह्मेन्द्राद्या देवगुणारुद्रपुरोगाः क्रीडाभाण्डं विश्वमिदं यस्य विभूमन् तस्मै नित्यं नाशनमस्ते करवाम विद्याधरा उचुः तन्माययार्थमभिपद्य कलेवरेऽस्मिन् कृत्वा ममाहमिति दुर्मतिरुत्पथै स्वैः शक्तोऽप्यसद्वैशयलालस आत्ममोहं यस्मत्कथामृतनिषेवक उद्भोदस्येत ब्राह्मणावचुः त्वं कस्तुरस्त्वं हविस्त्वं हुताशः स्वयं त्वं हि तं तदस्य द्विजोदम्पतिदेवता अग्निहोत्रं सदा सोमाद्यं पशुः तं पुरा गां वृषाया महाशुकरो द्रष्ट्या पद्मनिं वारणयेन्द्रो यथा सूयमालो नदं लीलया योगिभिज्जहर्तन्त्रै गात्रियज्ञक्रतुः साप्रसीद प्रसीद तमस्माकम् दर्शनं ते परिभ्रष्टसत्कर्मणाम् कृत्यमानोर्भिर्नाम्नि यज्ञे सते यज्ञविघ्नाक्षयं यान्ति तस्मै नवः नैत्रे उवाच इति दक्ष कविर्यज्ञम् भद्ररुद्रावमर्शितम् कृत्यमानो शिशिकेशे सरिण्ये यज्ञभावने भगवान् स्वेन भागेन सर्वात्मा सर्वभागभू दक्षम्बभाश आभाष प्रियमाला इवानग श्रीभगवानुवाच अहं ब्रह्मा च सर्वस्य जगतः कारणम् परम् आत्मेश्वर उपद्रष्टा स्वयं दिग्विशेषणः आत्ममायां समाविश्य शोहं गुणमयीं द्विज सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचितां तस्मिन् ब्रह्मण्य द्वितीये केवले परमात्मनि ब्रह्मरुद्रौच भूतानि यथा पुमान्नाष्वाङ्गेषु शिरः पाण्यादिसु क्वजे तारक्य बुद्धिं कुरुते एवं भूतेषु मध्वरः श्रियाणाम् एकभावानां यो न पश्यति वैभिधां सर्वभूतात्मनां ब्रह्मण् स शान्तिम् अधिगच्छति मैत्री उवाच एवं भगवतादिष्ट प्रजापते पतिर्हरिम् अर्चित्वा कृतुनास्त्वेन देवानुभयतो यजन् रुद्रं च स्वेन भागेन क्षुपा धावन् समाहितः कर्मणोदवसानेन सोमपानितरानपि उद्भस्य सहृद्विग्भिः सस्नावमृतं ततः तस्मा अप्यनुभावेन स्वेनैवा वान्तराधसे धर्म एव वा यजुः देवं दाक्षायणी हित्वा सति पूर्वकलेवरं यज्ञे हिंवत मेनायामिति मे नायामिति शुश्रुम तमेव दयितं भूय आविङ्क्ते पतिमम्बिका अनन्नभावैकगतिं शक्ते शुभदेव पूरुषम् एतद्भगवत सुतं भागवतार्थि स्यान् उद्धवान् बृहस्पते इदं पवित्रं परमेश चेष्टितं यशस्य मायुषमघं घर्षणं यो नित्यदाकर्णनरोऽनुकीर्तयेन्धुनोत्यघं कौरवभक्तिभावत श्री श्रीमद्भागवते महापुराणे प्रंशां चैतायां चतुर्सृङ्गे दक्षयज्ञसन्धानं नाम सप्तमोऽध्यायः